नारदपुराणम् पूर्वार्थम् अध्यायम् तर्टिफैव् सनक उवाच पुनर्वक्ष्यामि माहात्म्यं देवदेवस्य चक्रिणः पठतां तृण्वताम् सद्यः पापराशि प्रणश्यति शान्ता जितारिषड्वर्गा योगेनाप्यनहङ्कृताः यजन्ति ज्ञानयोगेन ज्ञानरूपिणमव्ययं तीर्थस्नानैर्विशुद्धा ये व्रतदानतपोमखैः यजन्ति कर्मयोगेन सर्वधातारमच्युतं लुब्धा व्यासनिनो ज्ञाश्च न यजन्ति जगत्पतिम् अजरामर वन्मूढास्तिष्ठन्ति नरकीटकाः तडिल्लेखा श्रियामत्ता वृद्धाहङ्कारदूषिताः जगन्नाथं सर्वश्रेयो विधायकम् हरिधर्मरता शान्ता हरिपादाब्जसेवकाः दैवाक्येभिह जायन्ते लोकानुग्रहतत्पराः कर्मणा मनसा वाचा यो यजेद्भक्तिदोहरिं सयादिपरमं स्थानं सर्वलोकोत्तमोत्तमं पठदां शृण्वदां चैव सर्वपापप्रणाशनं तत्प्रवक्ष्यामि चरितं यज्ञमालिसुमालिनोः यस्य श्रवणमात्रेण वाजिमेधफलं लभेद कश्चिदासीत् पुरा विप्रब्राह्मणो रैवतेन्दरे वेदवेदांक वेदा वेदवेदाङ्गपारगः सर्वभूद हरि याुक्त हरिपूजापरायण पुत्र मित्रकल विक्रयं अपण्यक्रयच तथा रस विक्रम चंडालाइर तथा संभाषी तिग्रही तपसां विक्रयं चक्रे व्रतानां विक्रयं तथा परार्थं तीर्थगमनं कलत्रार्थमकारयद कालेन गच्छदा विप्रजादौ तस्य सुधावुभौ सुमालीच च यमलावधिशोभनौ तदपिता कुमारौ तावधिस्नेहसमन्वितः पोषयामास वात्सल्यात् बहुभिः साधनैस्तदा वेदमालिर्बहोपायैर्धनं सम्पाद्य यत्नदः स्वधनं गणयामास किदिति वेदितुं निधिकोटिसहस्राणां कोडिकोडिगुणान्वितं विगणय्य स्वयं हृष्ठो विस्मितश्चार्थचिन्तया असत्प्रतिग्रहैश्चैव अपण्यानां च विक्रयैः मया तपो विक्रयाद्यैरेदधनमुपार्जितं नाद्यापि शान्तिमापन्ना मम तृष्णादिदुःसहा मेरुतुल्यसुवर्णानि ह्यसङ्ख्याधानि वाञ्छति अहो मन्ये महाकष्टं समस्तक्लेशसाधनं सर्वान् कामानवाप्नोति पुनरन्यच्च काङ्क्षति जीर्यन्ति जीर्यदकेशाः दन्ताः जीर्यन्ति जीर्यतः चक्षुश्रोत्रे च जोर्येते तृष्णैका तरुणायते ममेन्द्रियाणि सर्वाणि मन्दभावं व्रजन्ति च बलं हृदं च जरसा तृष्णा तरुणदां गदा कष्ठा शा वर्तते यस्य स विद्वानथपण्डितः सुशान्तोऽपि प्रमन्युः आशाभङ्गकरी पुंसमये मजेयारदिसन्निभा तस्मादाशां त्यजेत् प्राज्ञो यदि चेच्छाश्वतं सुखम् बलं तेजो यशश्चैव विद्याम् मानं च वृद्धताम् तथैव सत्कुले जन्म आशा हन्त्यदिवेगतः नृणामाशाभिभूतानामाश्चर्यमिदमुच्यते किञ्चिद्दातापि चाण्डालस्तस्मादधिकदां गतः आशाभिभूताः ये मर्त्या महामोहा महोद्धदाः अवमानादिकं दुःखं न जानन्ति कदाप्यहो मयाप्येवं बहु प्रेषनमुपार्जितम् शरीरमपि जीर्णं च जरसापहृदं बलम् इतः परं यदिष्यामि परलोकार्थमादराद एवं निश्चित्य विप्रेन्द्रधर्ममार्गरदो भवद तदैव तद्धनं सर्वं च दुर्धा व्यभजत्तथा स्वयं तु भागद्विदयं स्वार्जितार्थादपाहरद शेषं च भागद्विदयं पुत्रयोरुभयोर्दौ स्वेनार्जितानां पपानां नाश्यं कर्तुमनास्तदा प्रपातडागारमांश्च तदेव गृहान् बहून् अन्नादीनां च दानानि गङ्गाधीरे चकारसः एवं धनमशेषं च विश्राण्य हरिभक्तिमान् नरनारायणस्थानं जगाम तपसेवनं तत्रापश्यन्महारम्यमाश्रमं मुनिसेवितं फलितै पुष्पितैश्चैव चोभितम् वृक्ष सञ्चयैः गृणद्भिः परमम् ब्रह्म शास्त्रचिन्तापरैस्तथा परिचर्या परैर्वृद्धैर्मुनिभिः परिशोभितम् शिष्यैः परिवृतम् तत्र मुनिम् जानन्ति संज्ञकम् गृणन्तम् परमम् ब्रह्म तेजोराशिं ददर्शः समाधिगुणसंयुक्तं रागादिरहितं मुनिं शीर्णपर्णाशनं दृष्ट्वा वेदमालिर्ननाम तं तस्य जानन्दिरागन्धो कल्पयामास चार्हणम् कन्दमूलफलाद्यैस्तु धिया मुने कृतातिथ्यक्रियस्तेन वेदमालीकृताञ्जलि विनयावनदो भूत्वा प्रोवाच वदतां वरम् भगवन्कृतकृत्योऽस्मि विगतं कल्मषं मम मामुद्धरमहाभागज्ञानदानेन पण्डित एवमुक्तस्ततस्तेन जानन्तिर्मुनिसप्तमः प्रोवाचप्रकसन्वाग्मी वेदमालिगुणान्वितम् जानन्दिरुवाच शृणुष्व विप्रशार्दूल संसारोच्छेदकारणम् प्रवक्ष्यामि समासेन दुर्लभं त्वकृतात्मना भज परं नित्यं स्मरनारायणं प्रभुं परापवादं पैशून्यं कदाचिदपि मा कृ परोपकारनिरदसदा भवमहामदे हरिपूजा परश्चैवत्यजमूर्ख समागमं। कामं क्रोधं च लोभं च मोहं च मदमत्सरौ परित्यज्यात्मवल्लोकं दृष्ट्वा शान्तिं गमिष्यसि असूयां परनिन्दा च कदाचिदपि मा दम्भाचारमहङ्कारं नैष्ठुर्यं च परित्यज दयां कुरुष्व भूतेषु शुश्रूषां च तथा सदां त्वया कृतांश्च धर्मान्वै मा प्रकाशय पृच्छताम् अनाचारपरान् दृष्ट्वा नोपेक्षां कुरु च पूजयस्वतिथिं नित्यं स्वकुटुम्बविरोधतः पत्रायपुष्पै फलैर्वाभि दूर्वाभिफल्लवैरथ पूजयस्व जगन्नाथं नारायणमकामतः देवान् ऋषीन् पितॄंश्चापि विधिवद्विप्रपरिचर्यापरो भव देवतायतने नित्यं सम्मार्जनपरो भव तथोपलेपनं चैव कुरुष्व सुसमाहितः स्वेर्णस्फुटिदसन्धानं कुरुदेवगृहे सदा मार्गशोभां च दीपं च विष्णोरायतने कुरु कन्दमूलफलैर्वापि सदा पूजय माधवं प्रदक्षिणनमस्कारैस्तोत्राणां पठनैस्तद्ध पुराणश्रवणं चैव पुराणपठनं तद्धा वेदान्तपठनं चैव प्रत्यहं कुरु शक्रिदः एवं स्थिते तव ज्ञानं भविष्यत्युत्तमोत्तमं ज्ञानात् समस्तपापानां मोक्षो भवति निश्चितम् एवं प्रबोधितस्तेन वेदमालिर्महामतिः तथा ज्ञानरथो नित्यं ज्ञानलेशमवाप्तवान् वेदमालिकदाचित्तु प्रचोदितः कोखं मम क्रियाकेदि स्वयमेव व्यचिन्तयेत् मम जन्म कथं जातं रूपं कीदृविद्धिं मम एवं विचारणपरो दिवानिशमदृतः अनिश्चितमधिर्भूत्वा वेदमालिर्द्विजोत्तमः पुनर्जानन्तिमागम्य प्रणम्येदमुवाचः वेदमालिरुवाच मम चित्तमदिभ्रान्तं गुरो ब्रह्मविदाम्बर कोहं मम क्रियाकाच मम जन्मकथं पत जानन्दिरुवाच सत्यं सत्यं महाभागचित्तं भ्रान्तं सुनिश्चितम् अविद्यानिलयं चित्तं कथं सद्भावमेष्यति ममेधिगदितं यत्तु तदभिभ्रान्तिरिष्यते अहङ्कारो मनो धर्म आत्मनो न हि पण्डित पुनश्च कोहमित्युक्तम् वेदमाले त्वया तु यत मम जात्यादिशून्यस्य कथं नाम करोम्यहम् अनौ पम्यस्वभावस्य निर्गुणस्य परात्मनः निरूपस्याप्रमेस्य कथं नाम करोम्यहं परं ज्योतिस्वरूपस्य परिपूर्णाव्ययात्मनः अविच्छिन्नस्वभावस्य कथ्यते च कथं क्रिया स्वप्रकाशात्मनो विप्रत्यस्य परमात्मनः अनन्दस्य क्रिया चैव कथं जन्म च कथ्यते ज्ञानैकवेद्यमजरं परं परिपूर्णं परानन्दं तस्मान् नान्यदिहद्विज तत्त्वमस्यादिवाक्येभ्यो ज्ञानं मोक्षस्य साधनं ज्ञाने सिद्धे सर्वं ब्रह्ममयं भवेद् एवं प्रबोधितस्तेन वेदमालिर्मुनीश्वर मुमोद पश्यन्नात्मानमात्मन्ये वाच्युदम् प्रभुम् उपाधिरहितं ब्रह्मस्वप्रकाशं निरञ्जनम् अहमे वेदि निश्चित्य परां शान्तिमवाप्तवान् व्यवहारार्थं वेदमालिर्मुनीश्वरं गुरुं प्रणम्य जानन्तिं सदा ध्यानपरोऽभवद गे बहुतिथे काले वेदमालिर्मुनीश्वर वाराणसी पुरं प्राप्य परमोक्षमवाप्तवान् य इमं पठदेध्यायं शृणुयाद्वा समाहितः सकर्मपाशविच्छेदं प्राप्य सौख्यमवाप्नुयात् इति श्री बृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे ज्ञाननिरूपणं नाम पञ्चत्रिंशोऽध्यायः ओम्